वन्देऽहम् मङ्गलात्मानम् भास्वन्तम् वेदविग्रहं याज्ञवल्क्यम् निःश्रेष्ठम् जिष्णम् हरिहरप्रभं निरेन्द्रियञ्चि तक्रोधम् सदा ध्यानपरायणम् आनन्दनिलयम् वन्दे योगानन्दमुनीश्वरम् प्रणम्याद्यं त्रिनमणिम् योगीश्वरशिरोमणिम् सर्वज्ञेयाज्ञवल्क्यम् दर्शिष्यङ्कात्यायन मणिम् ॐ श्रीयाज्ञवल्क्यगुरुभ्यो नमः कण्वकात्याय नालिमहर्षिभ्यो नमः